पवित्राणि जुहोतिप्रसो दे चतुर्गृही तेन जुहोति चतुष्पादः पशवः पशूने वारं धे चतसो दिशो धिक्ष्वेव प्रतिष्ठ धिषन्दागं धिमन्नवो भागानि हव्यं मक्ष्यामयि नित्येभ्यजेतच्च दुर्गृहीतमधारयन् पुरोनुवाक्यादि राज्यादिदेवता दुर्गृहीतञ्जुहोदिषन्दायस्येव तत्प्रेमादितान्य सप्रीतानि दैव्योऽहं वहं तिजं गा मय दपाबीजान् सादित्यैकैकं तस्यजुः जादाहुदेभिरेवै नमपगृह्णा दपाबीरान् धमनिजङ्गामजय दमसेजान् साधित सर्वाणितस्रानुवृत्यजुः रादाहुत्यैवै नमभिक्रमय नमसेजान् भवत्यसो यज्ञस्यैवैषाभिक्राहान्ति दिवायष यज्ञमुखादुधाय देवताजाय चष्टावेदानि सामित्राणि भवन्तष्टाक्षरा गायत्रे गायत्रोः ेवताजेनैत्यष्टौ सामित्राणि भवं चाहृदन्नमे त्रिभृतमे वयङ्घमुखे विजा तजति गदिका भजयत छन्दागुं स यज्ञशसेनाः त्वजय जमित्यक्षमं तमां कुर्याच्छन्दागस्य वयज्ञकशसेनाः त्वजतिगदिका मजय यजमानैशेनाः पजय जमिति यजुरं तमं कुर्यात् यजमानमे वयज्ञकशसेनाः त्वज त्वं ृद्धे चतुर्भिरभ्रिमादत्ते चत्वारि छन्दागुं सन्दोभिरेव देवस्य कृष्णमभवद्गल्माजे भवतिभवदेतश्चामुदश्च स्यावरुध्यै व्याममातृभवत्यैतावद्भ्यै पुरुषैवीर्यम् वेर्यसंमिता परिमिता भवत्य परिमितस्यावरुध्यै यो वनस्पतीनाम् फलग्रहि सुरेषाम् वेर्यावान् फलग्रहिर्वे न वैणवे भवति वीर्यस्य अवरुद्ध्यै ज्ञस्य गतयजुष्केण क्रियत इमामगर्भ्यं नामितस्येत्तस्वाभिधाने मादत्ते यजुष्कृत्यै समृद्ध्यै प्रदोन्नावेत्यस्वधा च रूपमेवास्यैतन्महिमानं प्रतिष्ठापय तस्मानुस्वाहा सत्तरो योगे योगे तमस्त मित्याह योगे योग जे वैनैयुं दे वाजे वाजे हवाम हरिग्राहाजोन्न मे वां नमो दर्याहेन्द्रिय मे वारुन्धे जापतिरङ्गत्योश्वो श्वेतसंभरत्यनुवित्यै भागवस्य संवादे तत् क्रियते यच्छेयसा च पापीजसा च समानं कर्म कुर्वं दिवापे जानह्य स्वाग्य दोष्वं पूर्वन्यवापवस्तसस्य विजावृत्यैतस्माच्छेजागुं सम्पापीजान् पश्चादन्वेदि बहुर्मे भवतो भ्रादुरुजो भवदेव खलु बालेशयो ेह्यवक्रामन्नशस्ते दित्याह वज्रेण्रस्यभवत्यादित्याह रोद्रा वैपशमा रुद्रा ग्निं पुरेश्वमङ्गिरस्वलच्छाहेन प्रजापतयुरेभृत्य हृदयं वै प्रजापतिस्तस्या रे गच्छोद्वल्मेकोऽग्निं पुरेश्वमङ्गिरस्वत्फरिष्यामलि मेकबामुपतिष्ठते साक्षादेवाजा वदते ग्निगुं सम्भरत्यग्निं पुलेष्यमङ्गिर स्वद्भरा मरित्याहर सङ्गच्छदेवाचमेवास्य आगत्य वाज्य घन आक्रम्य वाचं पृथिवीमित्याहेच्छत्येवैनं विन्दत्युत्तरया द्वाभ्यामाक्रमयति प्रतिष्ठत्या अनुरूपाभ्यां तस्मादनुरूपा जायन्ते द्याौस्ते पृष्ठम् पृथिवे तथस्थमित्या हेभ्यो वाजेतम् लोकेभ्यः प्रजापतिः समे रजद्रूपमेवास्यैतम् महिमानम् जाजष्टे वज्रीवाजेषरन्यतो भूयाम् लोमभिरुभजादद्भ्योऽयम् ऋष्यात्तमथस्पदम् जाते वज्रेणीवैनग्रुणुते मूत्क्रामोजक्रमेति दिग्भ्याम यदि प्रतिष्ठिप्ता अनुरूपाभ्यां तस्मादनुरूपा पशवः प्रजाय उपसृजति यः प्रवाप उपगच्छन् प्रजतिष्ठं दोषधे प्रजतिष्ठं देष् पशवो दिवसो यज्ञो यज्ञं यजमानो यजमानं ्यमुपास्यजुनाक्षां जनसाहिति प्रदीक्षं तं भुवनानि विश्वेत्याह्येष प्रत्यं क्षेति पृथं तिरश्चामजसा बृहं तमित्याहामित्याहा स्मे सर्वमस्मै स्मदेवं वेदात्वादिघर्मेत्या हतस्माद्यत् पुरुषो मनसा हि गच्छति तद्वाचावदत्य रक्षसेत्याह रक्षसामवहत्येव स्पृहद्वर्मायमेत्याहपसिमेवास्मिन् दधात्यपसिमान्भवं वेदमनसा त्वयितामाप्नुभर्जुनग्ना बाहुजु एतद्यज्ञाहुदिरस्तुस्तस्मान् परिलिखति ते जोमे गायत्रे ते ृष्टुभापरिलिखतेन्द्रियं वै त्रुन्द्रिजय नैहालिखत्य सर्वाणि परिभो परिजावाग्निष्टु तस्मागाय प्रथमरापरिखत्य सा नष्टुभाते जो वै गायत्ये जज्ञो दृष्टुन्द्रियं दृष्टु तेजसा ्रियेण च भजतो जज्ञम् भरि ेवस्य प्रसवति खनति प्रसूमेव जनयति सोतः प्रजाश्रुतार्पयत्तं देवा अर्थर्चनाशमजन् शिवं प्रजाभ्योजिगुं सन्तमिद्याः प्रजानं द्वाभ्यां खनति प्रतिक्षां भ्रष्टमसेति पुष्करवर्णम एतत्पृष्ठद्पुष्करवर्णकुं रूपेण वै ददाहरति पुष्करवर्णेन सम्भरति जोनिर्वाग्ने पुष्करवर्णगं स जोनि वैवाग्निगुं सम्भरति कृष्णार्जुनेन सम्भरति यज्ञो वै कृष्णार्जुन यज्ञेनैव यज्ञकं सम्भरति रद्राम्याणां पशूनां चभरे हेद्राम्यान् पशूञ्च कृष्णाधिनेन सम्भरजारण्यानेव तस्माद्पशूनां कृष्णाधिनन्द पुष्कर वर्णन्दसृणादे गृह्णां देवेभ्यो निरागजना अभाष्चर शान। बाष्चर आवाद्वान। मञ्झलिद्याहज देवैन मन्वपश्च त्वामग्ने पुष्करा दशेत्याह पुष्करा वर्णे ह्येन दत्तमुत्त्वादत् वनस्तेजस्यास्कन्दधादिकमुत्त्वा पूर्वमेवोदितमुत्तरेणाभिगृणादि च दशभिः संभरति चत्वारि सन्दानं गायत्रे हिम्ब्रां हणस्तगायत्र हिम्ब्रां हणस्तुष्टुभ्ये राजन्यस्य त्रेष्टो हि राजन्याजं कामले नरसेजांसादित्रिफलेभ्यस्तस्य सम्भरे तेजश्चैवास्मायम् हृगन्त समेचे दधात्यष्टाभिः सम्भरत्यष्टाक्षरागायत्रे गायत्रो ग्निर्जावादेवाग्निस्तकम् सम्भरति सेदहो धनित्याह देवतादेव स्मै सघम् साधगति निहो देति मनुष्याः सगम् सेदस्वे देवयागम्सिदनिश्वाहिजे अह्मित्याह देव वा मनुष्या देवास्मै सघम् सन्नान् प्रजनयति क्रूरमि भवास्यै शान्तां सन्ते वायुमादधायुप्राणेन सन्दधा दिसन्ते वायुनित्याह तस्मायुप्रच्युतादिवो पृष्टे तस्मै च दे विभस्तु वा ऋतव ऋतुष्वेव स्मात् सर्वा गतोषड् गुरुजामास्तव स्याद्यन्नवषद्गुरुजागं श्र यज्ञकं हञ्नुपडित्याह परोक्षमहङ्करो दिनाश्च जातयामा वषत्कारो भव दिनयज्ञकं रक्षागं सिग्धं त्रि सुजातो सर्वाणि मुत्सृज ऋत् सजादो गर्भो असि रोदस्योरिक्ता हेमे विरोदसी रजो with the Lord and the Lord, with the Lord and the Lord, त्याहोषधयो अस्य मातरस्ताम् स्थिरभवङ्गेन संभरतिरस्मा गर्दभः पशूनां भारभारितमो गन्धफेन संभरतिरस्मा गर्दभोग्यनादेशे चान् पशून् श्वर प्रजाश्रुचाप्रदः शिवोप प्रजाध्व्याह प्रजाैनगोगतिमानुषेभ्यस्त्वमङ्गो हि प्रजामाज्यावापि मान्तरिक्षं मा वनस्पते नित्याहयेभ्यजमैलोकेभ्यः प्रयतुवाचेक्षसदित्याह वाचेत्येत्याहरास भेदो पुरेश्यमित्याहार्यङ्गेभर पुरेत्याहायुरेस्मिन् तथा जगतस्माजुरेदितस्मा ृषः प्रमेते विभ्यति वृषाग्निं वृषणं फलन्नित्याह वृषायैष वृषाग्निरमान्यद्भगं समुद्र नित्याहायश्चयदग्निलग्न आयाशिवेतजि दिवाजिमौ लोकौ जयितामग्न आयाहेतजिति गदाहानेत्यै प्रच्छिवो वाजेश आचलप्रतिष्ठागं सदेत यद्भ्यं स यो सत्यमित्याहेदं वाक्षापयति नार्तिमार्च्चेतिगतोष प्रतिगृंहेधाग्निवेदमित्यान् विश्वा अमधेलेत्याह रक्षसा मुखहज्ञै निषेदन् अवदं हतिगुहरत्याह प्रतिक्षित्या ैावयति तास्येवैनमृतिष्ठापयति द्वाभ्यामुहरति प्रतिष्ठिते अग्निरुपनध्वो विवाजसे निविश्वंसयजसविसोदेव सृशोचीं वर्णमेणीं वृसृजत्यव उपसृजत्या वो वै शान्ता शान्ताभिरेवासुजगं समयति दशभिरुपसृजतिर्यावानेवाग्नस्तस्य सुजगुं समयति मित्रः सकुं सृज पृषवी मित्याह पात्राणां गबालेः सगं सृजय्याणि पात्राणि शुचार्पजय धर्मकबालैः सगं सृजत्येतानि वा अनुपजयनीयानि तान्येव शुचार्पजति शर्कराभिस्सगं सृजति सृज्या चलोमे सगं सृजत्येषा वा अग्नेतना यदच सृजदैवैनन्दनुवासगं सृजत्य सोतेजसामभिस्सगं सृजते यज्ञो वै कृष्णार्जुन यज्ञेनैव यज्ञकं सगुंसृग्रा संहृत्य पृथिवी मज्ञाहैकावादेशिरोह यज्ञो वै मखस्तस्यैदक्षितो यदुःखादस्मादेवमाह यज्ञस्य पदे पदे अथो प्रचक्षित्रैत्यं वन्यैर्मं द्रजते त्वाय त्रभ्यङ्करोति प्रयज मे लोकायेषां लोकानामाप्ति छन्दः करोति भेर्यं वै छन्दायसि वै नाहाङ्करो दिगजशापिनं करो दिव्यावृत्यादियजेङ्करो देवयावतिना यज्ञमुखेन संमितान्दुस्तनाङ्करो दिद्यावाषभुजोर्दोहाय चतुस्तनाङ्करो दिपशोनान्दोहा न्तर्यागम् सम्भृत्य भ्रातरुजाय प्रहरति स्मृत्ये कृत्वा दसा महे मुखामिति निदधातु देवतास्वेवैनाम् प्रतिष्ठापयति सप्तभ्यर्थोपजति सप्तमेशेषाः प्राणाश्रियज्ञस्य यज्ञस्य प्राणान् दधादितस्मा सप्तशेषम् प्राणाश्वशकेन सोपयति प्राजापत्यो वा अश्वस्य जो नित्वा यादितिस्तेत्याहेयं वा अधिनरित्यैवादित्यां घनत्वस्याक्रूरङ्गारा जनहि स्वनस्ति हेवाना त्याह देवानां वा देवा वह्मजो खे गुर्वन्ताभिरेवनाहा द्विषणास्तेद्याः विद्या वैभिषणा विद्याभिरेवैनामभिन्धेग्नास्तेद्याः छन्दाकं शिवैग्नाश्छन्दोभिरवैनाविश्रवय देवलोत्रयस्तेद्याहोत्रा वैमनोत्रयोः भिरेवैनाहां वचति जनजस्वेद्याः देवानां वै पद्मेजस्ताभिरेवैनाहाचते षड्वारुदवरतुभिरेवैनाहां पचति द्विःपचं विद्याः तस्माद्भिः संवत्सरस्य सस्यं द्यमाना पृथिव्यासादिश आवृणेद्या ह तस्मादग्नि सर्वादिशो न विभात्युक्तिष्ठ बृहते भवोद्वादष्टात्मनिद्याः प्रतिष्ठित्वा ृण्डमाक्षिणत्येवत्राकरज क्षीरेणाच्छ्रिणत्यक्षीरम् परमेणैव्यावृत्ति ये छन्दोभिराक्षिणत्यर्वा येषा क्रियते छन्दोभिरेव छन्दनिश्चाच्छिणत्य े कविगं सन्ध्यामाशैः पुरुषे ऋठमध्यैत्तमेध्या मे माषामेध्यं पुरुषे नृठममे अध्यैरेवास्यामेध्यं निरपदाजमेध्यं कृत्वा हरत्ये कविगुंशतर्भवन्त्ये कविगुं सोमे पुरुषः पुरुषस्याध्ये विजर्थं वाजेतत्प्राणैरमेध्यं यत्पुरुषशे सप्तथा विजन्नाम् वल्मैकपपां प्रतिलदधा सप्तमे शेष प्राणा प्राणैरेवेण समर्थगति मेऽत्वायदावन्तो मयुबन्धमस्तेषायमाधिपक्तं परियाय तगाचाभिः परिगायति यमादेवेन वृन्दे च सृभिः परिगायति गृहजि मे लोकादेभ्यदेवेन लोकेभ्यः वृन्दे तस्माद्गायते न दे गङ्गासाहितवृन्देग्निभ्यः पशूनालभत कामा वाग्नः लभयता न वरुन्धास्य यत्पर्यज्ञकृतान सुजे यज्ञ वेशङ्करजापते शेषाणि सुर्यो नालभते तेनैव पशोन वरुन्धे यत्पर्यज्ञकृतान स्वजतशेषणामजातयामत्वाया भक्तेन सज्ञस्थापयत यज्ञो वये यज्ञं प्रतिष्ठापयत् प्रजापतिः प्रजा असृजदसर्जानो मन्येता प्रेन पश्यताभि समुखत आत्मा नेत यज्ञ छन्दसा भवन्त परिमितः प्रजापतिः प्रजापते राज्ञाभोनाद्यामेतच्छन्दः प्रजापते श्वशवा रूपाणि सर्वाणि रूपाण्यग्नौ चिक्रिः क्रियन्ते न स्मादेताग्ने स्ं शतिगं सामिथ ऋघ्वारे कविगुंशोरुचमेव गच्छकोः प्रतिष्ठामेव प्रतिष्ठाह्ये कविगुंशश्चतुर्विगं शतिमन्वाहचतुर्विगं शतिरन्धमा संवत्सरः संवत्सरोग्निर्वयेष्वानरस् क्षादेववेश्वानरमवरुन्धे पराचे रङ्गाः पराग्निवृर्गो लोकस्रमाः स्वाग्निर्धयम् दृत्याभिरवाग्निं वर्धय त्रिभिः संवत्सरं विश्वाभादिशकृशित्यास्मादग्निः सर्वादिशो न विभाय प्रत्यौ हदमश्विना मृत्युमस्मादित्याः मृत्युमेवास्मादपनु दत्युद्भयं तमसस्मरेत्याह वामा नमेवस्मादमहम् जगन्मज्योतिरुत्तममित्याहासौ वा आदित्यो ज्योतिरुत्तममादित्यस्यैव सायुज्यम् गच्छति न संवत्सरस्तिष्ठति नास्य श्रीस्तिष्ठति यस्यैता ह्रियम् दे ज्योतिष्मतेमुत्तमामम्माहज्योतिरेव स्मपरिष्टाद्यधादिषु षड्भद्येः क्षयति षड्वारुदभर्तुभिर वैनं दीक्षगति सप्त भद्ये क्षयति सप्त छन्दसि छन्दोभिरवैनं दीक्षगति विस्मे देवस्सने दुरुक्त्यनुष्ठुभोत्तमजाजहोष्टुक्तस्मा प्राणा ैकस्मादक्षराधनाहां प्रथमं वदन्दस्माद्यद्वाचो नाष्यामजाजुहो दिवो प्रजापतिः प्रजापतेहोदिन्यो नापतिः प्रजा प्रजानागं दृश्ये योगमवरुन्धे जयदङ्गारेषु भविष्यदङ्गारेषु प्रवृणक्ति भविष्यदेवावरुन्धे ्रह्मणा वाजेषा संहृता यदुःखासायतिमाच्छेद् यजमानोऽहं नेतास्य जग् मित्रैता मुखान्तपेत्याह ब्रह्म वै मित्रो ब्रह्मन्नेवैनां प्रतिक्षा वयति नार्तिमाच्छति यजमानो नाश्च यज्ञोऽहं यते यदि भिद्ये तदैरेवकपालै ैवतः प्रायश्चिन्मधित्वा तस्यावदध्यान्दवदामस्यात् स देवदस्यमभवत्येवजं कामदेतृमस्मै जनलेयन्यतस्तस्यात् साक्षादेवास्मै ृजञ्जनयत्यं वरेषादन्न कामश्चामद्रादम्बरे शयन्नं सजोन्नेव स्मापि तथावरुन्धाज्यसंयोद्वा अग्ने श्रियं धामय राज्यं प्रियेणैवैनं समर्थेजसावैकं गतिमा दधातिभा एवावरुं धां शान्तित्वम् मातुरस्या उपस्थति तिसृभिज्जातमुपतिष्ठते त्र यज् मे लोकेष्वेव लोकेष्वामिदम् गच्छत् तसो प्राणानेवात्मन्धत्ते नहस्मवे पुराज्ञिरपरशुरग्नं दहति तदस्मै प्रयोगय वर्षिरस्वदयत्यदग्ने जानिकाधिचेति समिधमादधात्यपरशुरग्नमेवास्मेहे स्वदयति सर्वमस्मै स्वजते जयमम् वेद उदुम्बरेमादधात्योर्ग्वा उदुम्बरवोर्जमेवास्मा रक्षागं श्रेयागुं सन् यतद्रा क्षोग्मवशब्दे वै स रक्षागिश्च पाहत या क्षोघ्नवत्यग्नेता दक्षागिश्च वहन्त्यश्वत्से मादधात्यश्वत्सो वैस्वदीनाहो विजित्यै वै कङ्कते मा दधा एवावरुं देशमे मदे मा दधा दिशान्ते सगं शितं औदुम्बरी वाचयति ब्रह्मणे वक्षत्रगं सगृष्टदेशत्रेण ब्रह्म तस्माद्राह्मणो राजन्यवान त्वन्यं ब्राह्मणं तस्माद्राजन्या ्राह्मणवानत्यन्यगो राजन्यं ऋक्चर्वा एष जरमृतगुं हिरण्यगोरुक्ममन्तरं प्रतिमुञ्चदे मृत्योरं दर्धत्वजेकविगुंशज निर्वाचो भवत्येकविघुंशतिर्वै देवलोकाद्वादशमासाः पञ्चमे लोकासावादित्यजेकविगुंसजय तावन्तो वै ेव नद्वाचे कुरु दे सावित्रियाग्नि प्रसूचेनषासेत्तरजाहोरात्राभ्या मे वै नमुद्यच्छने देवाग्न्यं धारजं द्रविणोदा इत्याह प्राणा वै देवा द्रविणोदाहोरात्राभ्या मे प्राणे प्रस्मादासेन प्रजायं जेष्णाजिनमुत्तरं तेजो वेहिं ब्रह्मकृष्णाजिनं तेजसा चैवैनं ब्रह्मणा च भजतः परिगृह्णाति षडुद्यामगं वैनमुद्यच्छते नित्यमानम् जाचष्टे दिवम् सुवः पदेत्याः सुवर्गमे वैनम् भोगम् गमयति समिद्धो अन्यम् कृतरम् मदीनाम् कृतमग्ने मधुमत्पिन्वमानः आजीवहन् रामम् जायवेदो दानान् वदानन् वाजप्ये तु देवान् अनृत्वा सप्ते पुरुषस्तचन्द्राविस्वधामस्मी यजमाना यथेहिढ्यश्चाम्यश्च वाजन्नाशश्चा सिमेढ्यश्च सप्ते अग्निष्ट्वा देवेऽवसः स दोषा प्रीतम् मन्यम् वहतु जातवे स्तीर्णम् बलिः सुष्ठले मादुषाणोरुपसुप्रथमानम् पृथिव्याम् देवेभिमनिधिः सजोषाः स्योऽक्रम् माना सुविते दधातु एता उपः सुभगा विश्वरूपा विपक्वाभिस्तजमाणामुदाते निष्ठा सेः कवशः शुम्भमाणा ज्वालो देवे स्वप्राणिणा भवन्तु अन्तरा मित्रा वरुणाचरम् ते मुखम् यज्ञाना बुद्धिसंविधाने विषासा वागुम् सुहिरण्ये सुशिल्पे ऋतस्य लो नाभिहसा दयामि वागुम् सरचिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा अपि प्रायञ्चोदना वाम्यमाना होता राज्योतिः प्रदिशा दिशन्ता आवित्ययेर्नो भारते वस्तु यज्ञकं सरस्वते सह रुद्रैर्न आवीत् इहो बहोदा वसुभिः सजोषा यज्ञम् नो देवी रमुदेशधत्ता त्वष्टामीरम् देवकामण्डचानत्व आशुरस्वः त्वष्टेदम् विश्वम् भुवनम् जानमहोः कर्तारमिह यक्षियोः अश्वघृतेन्या समग्र उपदेवागम् रदुषः वासयतु मनस्पदर्देवलोकम् प्रजानम् लग्निनाह विजास्पदितानि वक्षति तदा यज्ञमग्ने स्वाहा कृतेन